अग्ना विष्णो स जोषसा अग्ना विष्णो इत्यग्ना विष्णो स जोषसेमाः स जोषसेति स जोषसा इमा वर्धन्तो वर्धम् तु वा गिरः गिर इति गिरः वाजे वाजेभिरा आगतम् गतमिति गतम् वाजश्च चमे प्रसवः प्रसवश्च प्रसव इति प्रसवः चमे मे प्रयतिः प्रयतिश्च प्रयतिरितिप्र यतिः चमे मे प्रसीतिः प्रसीतिश्च प्रसितिरितिप्र सितिः चमे मे धीतिः धीतिश्च चमे मे क्रतुः क्रतुश्च चमे मे स्वरः स्वरश्च चमे मे श्लोकः श्लोकश्च चमे मे श्रावः श्रावश्च चमे मे श्रुतिः श्रुतिश्च चमे ज्योतिः ज्योतिश्च चमे मे शुभः शुभश्च चमे मे प्राणः प्राणश्च प्राण इति प्र अनः चमे ए मे पाणः अपानश्च अपान इत्यप अनः चमे ए मे ब्यानः ब्यानश्च व्यान इति वि अनः चमे ए ेषुः असुश्च समे मे चित्तम् चित्तम् च समे म आधीतम् आधीतम् च मे वाक् वाक् समे मे मनः मनश्च same me chakshuh chakshas same me srotram srotram same me dakshah dakshas same me balam balam same me mahojah ojas same मे सहः सहश्च समे म आयुः आयुश्च चमे मे जरा जरा च क्षमे म आत्मा आत्मा चमे तनोः तनोश्च चमे मे शर्म र्म च समे मे वर्म वर्म च समे मेऽङ्गानि अङ्गानि च समे मे स्थानि अस्थानि च समे मे परोदंसि परोदंसि च समे मे शरीराणि शरीराणि च समे म इति मे सजोशसा सजोषसा अग्नाविष्णु